द्वितीयाष्टकप्रारम्भः ओिलसो वै सत्रमासत तेषाम् प्रश्चर्घर्मथुकासीत् सद्देशेनाजीवत् ते, ते ब्रुवन् कस्मैनुसत्रमास्महे ये स्यावोषधेऽर्णजनगामगिते ते दिवो वृष्टिमथन्त यावन्तस्तोका अवापद्यन्त तावती रोषधयो जायन्त ताजाताः पितराविषेनालिम्पन् तासाम् जग्धारुप्यन्ते हे ब्रुवन् कैदमित्थमघलिते वयम् भागधेयमिच्छमानामिति पितरो ब्रुवन् किम्वा भागधेयमिति अग्निहोत्र एव नाप्यस्त्यब्रुवन् भागधेयम् प्रायच्छन् यद्धृत्वा निमाष्टे ततो एकोषधीरस्वदयन् य एवम् वेद स्वदन्त्यस्मावोषयः एवजन् इदम् नव्यम् प्रदापयति सोऽप्रेद्वरम् वृणे दशमालात्तेतन्मरोहन् आसङ्गवम् मात्रा तस्माद्वत्सञ्जातन्दशरात्रेर्न दहन्ते आसङ्गमम् मात्रा सहचरति वारे पदग्स्य तस्माद्वत्सगम् सकम् द्रष्टभयकम् रुद्रोघातुकः अधिसन्धान्धयति प्रजापदयज्ञमसृजत तम् प्रजान्मसृज्यन्त तमभाग उपास्त प्रजाभिदपादरा तम वरुधमानान्वयेत् तम वरुधन्नाशक्नात् सोदप्यता सोऽनुपारमतापि स प्रजापतिरिति स राजा दुदमृष्टा अर्घृतमभवत् तस्माद्यश्च दक्षिणदक्षेषा तस्मात् ददा न सन्ति तदग्नौ प्रागृह्णात् तद्विचिकित्सते तद्व्यचिकित्सायै जन्म य एवम् विद्वानपि चिकित्सति वशीय एव चेतयते तम् वागभ्यपदजुगुधीति सोऽ कस्त्वमसीति शैवते वागित्यब्रवीत् सोऽजुहोत्स्वाहेति तत्स्वाहाकारस्य जन्म य एव ग्यस्वाहाकारस्य जन्म वेद करोति स्वाहाकारेण वीर्यम् यस्यैवम् विदुषस्वाहाकारेण जिह्वति भोगालैवास्य हुतम् भवति तस्या सरकामसृजत सुतर्थमजुहोत् सोऽसृजत पञ्चममजुहोत् सोजामसृजत सोऽभेत् आहुते सर्वैमाप्नोतीति स प्रजापतिम् पुनः प्राविशत् तम् प्रजापतिरब्रवीत् जायस्वेति सोऽधैर्यमभिजनिष्य जा इति तुभ्यमेवेदगम्भूयात इत्यब्रवीत् स एतद्भागधेयमभ्यजायत यदग्निहोत्रम् तस्मादग्निहोत्रमुच्यते लब्धूयमानवादित्यो अब्रवीत् माहोषेः उभयोर्वेना वेतदिति सोऽग्निरब्रवीत् प्रसन्नो होष्यन्तेति सायमेव तुभ्यम् जुहवन्ने प्रातर्मश्यमित्यब्रवीन् तस्मादग्नये सायकम् भोजते सूर्याय प्रातः आग्ने वैरात्रिः ऐन्द्रमः यदनुदिते सूर्ये प्रातर्जुभुयात् उभयमेवाग्नेयज्ञः स्यात् उदिरे सूर्ये प्रादर्जुभोति तथाग्ने सायकम् भोजत् सूर्याय प्रातः प्रजाः प्रजायन्ते अह्नाः प्रतिष्ठन्ते यत्सायम् जुहोति वैवतेन जायते दे, उजिरे सौर्ये दे, प्रादर्जुहोति तदेवतेन तिष्ठति प्रजापजलकामयतप्रजागेनेति स एतदग्निहोत्रम् मिथुनमपश्यते दे, तरदिदेशौर्ये जुहोत् यजुषा मन्यत् तूष्णीमन्यते ततो वैश प्राजायत यस्यैवम् विषसूचिते सूर्येहोत्रम् जुःपदे तदेव जायते अथो यथा दिवाः प्रजानन्येति तादृगे अथो खल्वाहुः यस्य वेद्वौ पुण्यो गृहेऽवसः यस्तयो रञ्जकम् राधयत्यन्यन्न तदा पृच्छतीति अग्निम् वा नित्यः तस्मादग्निर्दौरान्नक्तम् दृशे उभे हिते दशी सम्पद्येते उद्यन्तम् वा नित्यमज्ञमारोहते तस्माद्धौमदेवाग्ने दृशे यदग्नये सायञ्जभुयात् आसौर्याय पृच्छ्येत यत्सौर्याय प्रादुर्युभुयात् आग्ने पृश्येत देवताभ्यः समनन्दद्यात् अग्न्यों सौस्वाहे साजकम होत्योद्योतिरस्वाहे सायक प्रातःव्य अचलिता अवर तो प्रजायास्मे प्रजनयते सौर्यो ज्योतिरित्याह प्रजा एवहेत्याह प्रजा एव प्रजाता अस्याम् प्रतिष्ठापयति तोष्णेमुत्तराहुतिम् जुहोति विथनत्वाय प्रजात्ये सौर्ये प्रादर्जुयात् यथा प्रदृताय शून्यायाव तथा हरन्ति ताजगेव तद् भवतीत्याहो यत्स न वेद यस्मैतद्धरन्तीति तस्माद्यदौषधम् जुहोति तदेव सम्प्रति अथोकथा प्रार्थमौषधम् परिवेवे तादृगे रुद्रो वा एषः यदग्निः पत्नेः स्थाले उदेशोङ्गारान् निरोच्याश्रयते पत्न्यैकोऽपिन्ताम् करोति तथा पत्न्यप्रमायिका भवति धर्मो वा एषो शान्तः अहरः प्रब्यतेहोत्तम् प्रतिषिञ्चेत् पशुकामस्य शान्तमिभिशव्यम् न प्रतिषिञ्चेत् ब्रह्मवत् प्रसकामस्य प्रतिषिध्यमेव यत्प्रतिषिञ्चते तत्प्रसव्यम् यद्युहोति तद्ब्रह्म वर्तसे उभयमेवाकः प्रच्युतम् वा एतदस्मान्लोकात् अगतम् देव लोकम् यच्छुतकम् हविरनभिधारितम् अभिद्योतयति अभ्येवैनद्घारयति अथोदेवत्रैवैनद्गमयति पर्यग्निकरोति रक्षसामपहत्यै दःपर्यज्ञिकरोति प्रजावृद्धिज्ञः अतो मेद्य यत्प्राचीनमुद्वासयेत् यजमानकम् श्रुतार्पयेत् यद्दक्षिणा विजदेव त्यक् स्यात् यत्प्रत्यय पत्नीकम् श्रुतार्पयेत् उदेकेनमुद्वासयति एषा वेदेव मनुष्यानाकम् शान्तादिक कामेवेन तमोद्वासयति शान्त्यैः वर्णकरोति यज्ञः सन्दत्यै तिष्टवति उपैवत्सृणादि चतुर्न्नयति चतुष्पादः पशवः पशूनैवावरुन्धे सर्वान् ओन्नानुन्नयति सर्वे पुण्यारार्धाः अनोचुन्नयति प्रजाया अनोचेन त्वाया अनोच्चे वास्य प्रजार्थका आहोष्यन्नुपसादयेत् रहोष्यन्पसादयेत् यथा अन्यस्मा उपनिधाय अन्यस्मै प्रयच्छति तादृशे वतते आस्मै वृश्चेत यदेव कारिखपत्ये शिश्वयति तेन कारिकपत्यम् प्रीणाति अग्निर्भेत् आहुतजो मार्जेष्यन्तीति स एताकम् समिधमपश्यत् तामाधत्ता अतो वा अग्नावाहुतयोद्ध्रियन्त यदेन समयच्छत् तत्समिधः समित्वम् समिधमादधाति समेवेन यच्छति आहुतीनाम् धृत्यै अथो अग्निहोत्रमेवे ध्ववत्करोति आहुतेनाम् प्रतिष्ठित्यै ब्रह्मवादिना वदन्ति यदेकाकम् समिषमाधायद्वे आहुते जुहोते अशगस्यागम् समिषद्वितीयामाहुतिम् जुहोतीति यद्मे समिधा दध्यात् ध्यातव्यमस्मै जनयेत् एकाकम् समिधमाधाय विविधान्यामाहुतिम् जहोति उभे एव समित्व जुहोति नास्मै भ्यातव्यम् जनयति आदे प्रायाम् जहोति समिद्धमिवहि ब्रह्मवर्तसम् अथो यथा संज्योतिष्कृत्वा परिवेवेष्टि तादृगे वदते चतुर्णयति निर्जहोति तस्माद्दिपाचतुष्पादमत्ते अथोद्विपद्देवचतुष्पदः प्रतिष्ठापयति उत्तरावदे वै देवा आहुदिमजुहवोः अवाचे मधुराः ततो देवा अभवन् परासुराः यङ्गामये तमसीयाञ्च कनीयस्तस्य पूर्वकम् हुत्वा उत्तरम् भूजुयात् एषा वा उत्तरावत्याहुदिः जुहवोः अतस्तेभवन् यस्यैवम् जुह्दी भवदेवपापीजा भूयस्तस्य पूर्वकम् हुत्वा उत्तरङ्कनीजोदात् एषा वाच्याहुदिः तामसुरा अजुहवोः तदस्ते पराभवन् यस्यैवम् जुह्वे परैव भवते कृत्वापसादयत् पिलामि त्वारा अथो व्यावृत्ते व्यायुहपत्यम् प्रतीक्षते अनध्यायिनमेवैनम् करोति अग्निहोत्रस्य वै स्थानरस्ति तैयगच्छेत् यज्ञस्थानमिच्छेत् एष वा अग्निहोत्रस्य स्थानः यत्पूर्वाहुदे स्थान ताञ्जदुत्तरयाभिजुगात् यज्ञस्थानमुच्छेत् अधिहाय पूर्वामाहुदिञ्जुहोति यज्ञस्थानमेव परिवृक्ते अथो भ्रातव्यमेवातिक्रामते अवाचेन कुंसायमुपमार्ष्टे हेतगेव तद्दधाते ओर्ध्वम् प्रातः ऋदनेत्रे वत् ब्रह्मवादिना वदन्ते चतुर्नयते दर्जुहोति असक्वद्वे आहुते भवत इति अग्नवैयेष्वानरैर्ब्रूयात् एष ब्राह्मणः पुत्राद्विप्राश्नादे अग्नेव द्वे आहुते जुहोदे निर्जुहोदेवास्ते विप्राश्नादे षट्सम्पद्यन्ते षड्वा ऋतवः ऋतोरेव प्रेयादे ब्रह्मवादिना वदन्ति किलत्यमग्निहात्रमिति वैश्वरेवमिति ब्रूयात् यजुजुषा जुहोजे तदयन् राज्ञम् यत्तोष्णे तत्प्राजावत्यम् यन्निवाष्णे तदोषधीनाम् यद्वितीयम् तत्विदनाम् यत्प्राश्नाते तद्गर्भाणाम् तस्माद्गर्भा अनश्नन्तवर्धन्ते यदाचामति तन्मनुष्याणाम् पर्यावृत्त्यामते आत्मना क्वे निर्णेनेत्य शुद्धैः इष्टपतिष्वकाकृत्यै उद्दिशति सप्तविषयेनेव प्रेणाति दक्षिणापर्यावर्तते स्वमेव वीर्यवनपर्यावर्तते तस्माद्दक्षिणार्थ आत्मनो वीर्यावर्तरः अथ आदित्यस्यैवापदमनपर्यावर्तते भूत्वा पदविन्ध्ये ब्रह्मवक्षरस्य समिध्यै नहरे अनज्ञस्थितो वा यदयज्ञः यदग्निहोत्रम् यदनप्रहरेत् यज्ञम् विच्छिन्द्यात् तस्मान्नाप्रहत्यम् यज्ञस्य सन्तत्ये अपोजनयते अपवृथस्यैव रूपमगः ब्रह्मवादिनापदन्ति अग्निहोत्रप्रायणा यज्ञाः किम् प्रायणमग्निहोत्रमिति वत्सो वा अग्निहोत्र यज्ञानाम् तस्य पृथिवीसरः अन्तरिक्षमाग्नेऽर्धम् दिव्यामप्रोक्षणयः ओषतयोपरिः पनस्पतय विद्मः द्विजः परिधरः आदित्योपः यजमानः पशुः समुद्रोपभृतः संवत्सरस्वगाकारः तस्मादाहिताग्नेः सर्वमेव तर्विश्वम् दत्तम् यत्सायम् जुहोति रात्रिमेव तेन दक्षिण्याम् कुरुते यत्प्रातः अहरेव तेन दक्षिण्यम् कुरुते यत्रतो ददाति सा दक्षिणा यावन्तो वे देवा देवाहुतपादन् ते पराभवन् प्रगेदज्ञहोत्रम् सर्वस्यैव समपदाजाजुहवोः तस्मादाहुः अज्ञहोत्रम् वे देवाग्रहाणाम् निष्कृतिमपश्यन्ति ते यत्सायम् जुहोति रात्रिया एव तद्धुताद्याय विदमानस्यापराभावाय यत्रातः अन्धडेव तद्धुताद्याय विदमानस्यापराभावाय यत्ततोऽश्नाति तो भुजमेव तत् परो प्रयसाभुजा पशुकामस्य एतद्वा अग्न्यहोत्रम् मिशनम् यदेवम् वेद प्रजलावशुभिसने ज्ञायते इमामेव पूर्वया दुहे अमोमुत्तरया अधिश्रुत्योत्तरमानयति यो नवेव तद्रेतः प्रयनने आज्येन जुभुजात् तेजस्कामस्य तेजो वा आज्यम् तेजस्वेव भवति पयसा पशुकामस्य एतद्वै पशूनागम् रूपम् रूपेणैवास्मै पशूनवरुन्धे पशुमानेव पशुणा भवति रद्धेन्द्रियकामस्य इन्द्रियम् वेतथे इन्द्रियाव्येव भवते वाग्वा ग्रामकामस्य औषधा वे मनुष्याः भागधेदेनैव स्नेतजातानवरुन्धे ग्राम्येव भवति एज्ञो वा एषः योधामा चतुर्नयते चतुरक्षरकम् रथन्तरम् रथन्दरस्यैषवर्णः उपदेव अन्तरिक्षम् वामदेव्यम् वामदेव्यः सेशवर्णः निर्जहोति दक्षरम् बृहत् बृहदेषवर्णः अग्निहोत्रमेव तत्सामन्वत्करोति यो वा अग्निहोत्रस्योपसतो वेद उपैनवपसतो नम नमन्ति बिन्दन नम उपसत्तारम् मुन्यीरोपसारयति पृथिवीमेव प्रीणाति होष्यन्मुपसारयति अन्तरिक्षमेव प्रीणाति पूर्वोपसारयते दिवमेव प्रीणाति एतावाज्ञहोत्रस्योपसदः य एवम् वेद उपै नवपसदो नमन्ते क्विञ्जलोपसत्तारम् यो वाग्निहोत्रस्याश्रावितम् प्रत्याश्रावितगृह्होतारम् ब्रह्माणम् मषकारम् वेद तस्यत्वेव हुतम् राणो वाग्निहोत्रस्याश्रावितम् अपानप्रत्याश्रावितम् चक्षुर्ब्रह्मा निमेषो पुरत्कारः य एवम् वेद तस्य त्वेव हुतम् साधय्यावानष्ट वै देवाः प्रातर्यावानश्चाज्ञो त्रिनोर्गृहमागच्छन्ति आनयन्नतर्पयेत् प्रजलास्य पशुभिर्भितिष्ठेरन् यत्तर्परेत् तृप्तायणम् प्रजलापशुभिस्तर्परेयोः सुजोर्देवैः प्रातर्यावभयति प्रातः ये दैवदेवाः सा दैर्यावाणो ये च प्रातर्यावाणः सा देवोभयागस्तर्पयति तजेन नृत्ताः प्रजजापशुभिस्तर्पयन्ति अर्णो हस्माः उपवेशे अग्निहोक्तदेवाः पुंसाजम् प्रातर्वज्रम् भ्रातर्वेभ्यः प्रहरामि तस्मान्मत्पामीयागुंसोऽभ्यातर्भ्या इति चतुर्नयति दृजहति समित्सप्तमी सप्तपदाशत्वरी शाक्वरो वज्रः अग्न्यहोर्त एव तत्सायम् प्रा सर्वज्ञमानो भ्रातव्याय प्रहरति भवत्यात्मना पराः स्य भ्रातव्या भवति प्रजापतिनकामयतात्मन्वन्मे जायते चेति सोऽजुहोत् अस्यात्मन्वदजायत अग्निर्वागिना प्रजापतिरघौषीदात्मन्पन्मे जायेतेति अस्य वयमजनिस्महे जायतान्न आत्मन्वचिते प्राणानामग्निः तमवे वायोः चक्षुषा नित्यः वेदागम् हुतादजायरगौरेव तस्ये पयसि व्यायच्छन्त मम हुतादजनिममेति त्वे प्रजापतिम् प्रश्नमायन् सः रित्योः अग्निमब्रवीत् यतरो न उजयात् तन्नौ सहा सनिति कस्यैकोहौष प्रजापजलबलभेत्तस्यैक इति प्राणानामहमित्यग्निः तनुवा अहमिति वायुः चक्षुषोऽहमित्याः तदेव वा प्राणानामहौषेत् तस्य हुतात् जनेत् अग्नेर्हुतात् जनेते तदग्निहोत्रस्याग्निहोत्रत्वम् गौर्वाग्निहोत्रम् यदेवम् वेदगौरज्ञहोत्रमिति प्राणापानाभ्यामेवाग्निकम् समर्थयति अभ्यर्थकः प्राणापानाभ्याम् भवति एवम् वेद औवायब्रवेत् अनुमाभजतमिति यदेव गारिहपद्ये सिश्रित्याः वनीयमभ्यद्रवान् तेन त्वाम् प्रेणानि च ब्रूता प्रजापतिर्देवता सृजमानः अग्निमेव देवतानाम् प्रथममसजत स्वरोऽहम् यदारम्भ्यमवित्त्वा प्रजापतिमुपर्यावर्तत समर्त्यव सोममादित्यमात्मा निरम्येत कम् हुत्वापरान् पर्यावर्तत ततो वेदमृत्यमपाजयत् अपमृत्यम् जयति यदेवम् वेद तस्मात्यस्यैवम् विदुषा उदे काहमुदद्भ्यहन्न दुह्वपदे हुतमेवास्य भवति असौख्यादित्योऽग्निहोत्रम् रौद्रम् गवे भायव्यमुपदृष्टम् आश्विनम् दुह्यमानम् सौम्यम् दुग्धम् वारुणवधिष्यतम् वैश्वदेवाभिन्दवः औष्णमुदन्तम् सवितः प्रक्रान्तम् जावापसव्यग्रः क्रियमाणम् ऐन्द्राग्नमुपसन्नम् अग्ने पूर्वाहुदे प्रजापतेरुत्तरा ऐन्द्रगम् हुतम् दक्षिणत उपसजति पृथलोकमेव तेन जयति दे दे, प्राचेमावर्तयति दे, देवलोकमेव तेन जयति दे दे, दे दे प्रीतिमावृत्यतोऽग्धे मनुष्यलोकमेव तेन जयति पूर्वो दुःख्यात् ज्येष्ठस्य ज्येष्ठने यस्य योवागतश्रेयः स्यात् अपरो दुःख्यात् तनिष्ठस्य कानिष्ठिनेयस्य योगा बभूषेत् अवृषदे पापवशरस्य व्यावृत्ते वायव्यम्वारे तदुपदृष्टम् आश्रिनम् दुह्यमाणम् मैत्रम् रुद्धम् अर्यम् न उद्वास्यमानम् काष्ठमुन्धीयमानम् बृहस्पतेरुन्नेतम्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 प्रतिरापशुभिर्जायते यस्यैवम् विजसाराग्निहोत्रम् जुह्वी यौतैन देवम् वेद तयो वैप्र्यमेधा आसन् तेषां त्रिलोकोऽग्निहोत्रमजुहोत् द्विरेकः सकृतेकः तेषा यस्त्रिरजुहोत् साजुहोत् योग्भिः सैलिधा यस्य कृते सतोऽस्मि यस्य एतादिहोद्यश्च तोष्णी सा भावाहार्थता तस्माद्यजिदाहुनिः पूर्वा होतव्याः तोष्णीमुत्तरा उभे एव वेतो माने तस्य हितम् न प्रजायते यस्याज्ञहोत्रोर्योऽभ्यजयति यद्यन्ते स्यात् पुन्नीयप्रामुदाद्रवेत् सौपधाद्यासीत स यताम्येत् असभोस्वाहेतुजुयात् प्रजापद्रुवैभूतः तमेवोपासरत् स एवैनन्तयति नार्तिमार्च यजमानः बसवस्त तस्था जुगपदे वसुष्वे सोतमेज नीरोधोपालेद्रास्तर्ष्यस्न यहाद्रेष्व सैनिहोत्र हुतम भवते प्रथम आदिस्तर्ष्यस्थाधे जुगपद आदित्येष्वेवास्याग्निहोत्रगम् हुतम् भवति सर्वदेव धर्मशैद्वादे भवते विश्वे देवास्तर्ह्यग्निः तस्मिन् यस्य तथा विधेयजुग्पदे विश्वेष्वेवास्वरेवेष्वग्निहोत्रगम् हुतम् भवते नितरामर्त्युपा वैदिलोहिनीके भवति इन्द्रस्तर्जग्निः तस्मिन् यस्य तथा विधेयजुग्पदे ङ्गारा भवन्ति प्रजापतिस्तृग् तस्मिन् यस्य तथाविधे दुःपदे प्रजापतावे वास्याज्ञहोत्रगम् हुतम् भवति शरोङ्गाराध्योहन्ते ब्रह्मदह्वः तस्मिन् यस्य तथाविधे दुःक्पदे ब्रह्मणेवास्याज्ञहोत्रकम् हुतम् भवति वसरुद्रेष्वादित्येषु विश्वेषु देवेषु इन्द्रे प्रजापतौ ब्रह्मणे अपरिवर्गमेवास्यैतासु देवतासु हुतम् भवति यस्यैवम् विदुषाग्निहोत्रम् जत्पति युधेन देवम् वेद विदम् त्वासत्तेन परिषिञ्जामेति सायम् परिषिञ्जति सत्यन्तत्तेन परिषिञ्जामेति प्रातः अग्निर्वादितम् तथा वादित्यः सत्यम् अग्निमेव ददादित्येन सायम् परिषिञ्चते अग्निनादित्यम् प्रातः सः यावदहोरात्रे भवतः तावदस्य लोकस्य नार्तिर्न वृष्टिः नान्तो न पर्यन्तोऽस्ते अस्ते एवम् विदुषाग्निहोत्रम् जुह्वते यभुतेन देवम् वेद